अथ नवमोऽध्यायः नारद उवाच युधिष्ठिरसभा दिव्या वरुणस्यामित प्रभा प्रमाणेन यथा याम्या शुभ प्राकारतोरणा अन्तःसलिलमास्थाया विहिता विश्वकर्मणा दिव्यैरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता नीलपीतासितश्यामैः सितैर्लोहितकैरपि अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः शतशोथसहस्रशः सा सभा सुखसंस्पर्शा न शीता न वेश्मासनवती रम्या सिता वरुणपालिता यस्यामास्ते समन्वितः दिव्यरत्नामरधरो दिव्याभरणभूषितः स्रग्विणो दिव्यगन्धश्च दिव्यगन्धानुलेपनाः आदित्यास्तत्र वरुणम् जलेश्वरमुपासते वासुकिस्तक्षकश्चैव वा, नागश्चैरावतस्तथा कृष्णश्च लोहितश्चैव पद्मश्चित्तश्च वीर्यवान् कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ मणिनागश्च नागश्च मणिशङ्खनखस्तथा कौरव्यस्वस्तिकश्चैव एलापत्रश्च वामनः अपराधितश्च दोषश्चानन्दकः पूरणस्तथा बलवान् पृथिवीपते प्रह्लादो मूषिकादश्च तथैव जनमे पताकिनो मण्डलिनः फणावन्तश्च सर्वशः अनन्तश्च महानागोऽयम् स जलेश्वरः अभ्यर्चयति सत्कारैरासनेन च तम् विभुम् वासुकिप्रमुखाश्चैव वा, सर्वे प्राञ्जलय स्थिताः अनुज्ञाताश्च शेषेण यथार्हमुपविश्य च